द्वितीयोऽध्यायः शिक्षणं यौनारम्भश्च षष्ठे वयसि सञ्जातं नरेन्द्रस्य प्रवेशनं विद्यालये यो बभूव परम्पर्यानुसार्यपि प्रातः कौटुम्बिकपुरोहितः अकारयन्नरेन्द्रस्य विद्यारम्भं विधिक्रमात् पठनं पाठशालायां चिरकालं तु नाभवत् अन्यविद्यार्थिसंसर्गान्दशैसा समजायत शब्दा बहुविधाये तु प्रोच्यन्ते न कुटुम्बके नरेन्द्रोक्त्या भवन्तीति गृहाङ्गै परिचिन्तितम् अत सर्वकुटुम्बाङ्गै निश्चितं यत् स बालकः निजप्राथमिकां शिक्षां स्वगृहे प्राप्नुयादिति विविक्तशिक्षकः कश्चिन् युक्तोऽभुच्य तत्कृते गृहस्यान्यकुमाराश्च तस्मा शिक्षणम् आप्नुवन् तद्वदेवा भवत्तस्य निस्तुलं स्मृतै वैभवम् अध्यापकेन यत्किञ्चिन् एकवारमुदीरितं नरेन्द्र पुनराख्यातुं शक्नोति स्म यथायथं प्रथमं शिक्षणं तेन मातुर्लब्धं यथार्थतः तथवेश्वरभक्तिश्च सदाचारविधिक्रमः आजीवनं जनन्यां स नितनां स्निग्धमुनावानपि महान् कोऽपि न जायेत जनन्याराधनं विना मात्रे वा नो गृहीतोऽस्मि मदीयज्ञानवृद्धये इत्येवं कथितं तेन बहुवारम् अनन्तरम् नृसिंहदत्तयत्याख्य तस्य बन्धुर्वयोधिकः संस्कृताभ्यसने तस्य साहाय्यम् अकरोदपि दत्तावधान आसीत् च तत्पिता तस्य शिक्षणे अकार्यस्य पुत्रस्य सङ्गीताभ्यसनं तदा तथा परम्परागता तस्य संहिताभिरुचिऋणम् निपुणो भुन्न तत्कलायां शनैः शनैः नृत्यत्वलक्षणं तस्मिन् बाल्ये वा निरीक्षितं प्रसङ्गे सहणेन सन् सन्निहिते सौ मित्राणाम् अग्रणिर्भवेत् अभिभाषक आसीत् तु तत्पिता येन हेतुना भिन्नजातिमतस्था तत्समीपं नित्यमागता सावधानं शृणोति स्म तेषां सम्भाषणं नरेन् जातिभेदस्य विषये घृणा तस्मिन् तदाभवत् निर्भीकत्वं साहसित्वं परं परसाहाय्य सञ्जता इत्येतदखिलं दृष्टं नरेन्द्रे शैशवादपि शिवस्य विग्रहं कृत्वा मित्रेण सहितं नरेन् प्रत्यायाति स्म गेहं संसन्ध्याकाले कदाचन विभक्तौ जनसन्मर्देतौ तदा पृष्ठतस्तयोः द्रुतकृत्यारथ कश्चिद्दहो कष्टं समागतः अश्वेन सहितं यानं मित्रस्यात्यन्तपार्श्वतः आयातमिति तत्काले नरेन्द्रेणावलोकितम् तिष्ठन्तं तं मध्ये मार्गं श्रहृदम्भय विह्वलम् रक्षितं धीरता पूर्वं नरेण धावितवानपि विगण्यं निजप्राणां नरेन्द्रो संशयम् विना मित्रमश्वस्य पादेभ्य काले रक्षितवानहो मोदाश्रूभरिता तस्य माता श्रुप्रेतमब्रवीत् एवं यथार्थम् अर्तस्त्वं भव मे पुत्र सर्वदा रोगार्थभुन्नरेन्द्रस्य कदाचन काली प्रसादयत्याख्य स मृत्युं प्रत्यपालयत् महाभारतकाव्यं स श्रोतुं नरेन्द्रमन्तरा कोऽपि न तं प्रीणयितुं क्षमः षड्वर्षीय स उत्सङ्गे उत्सङ्गे भारवत्पुरं पुस्तकं वहन् पपाठव्यक्तनादेन पुराणं पुण्यदायकम् तवास्ति निश्चितं श्रेष्ठं भविष्यत प्रियबालक एवं नरेन्द्रमुक्त्वा वृद्धो मरणं मरणं आप्तवान् यदा भूदष्टवर्षीयो नरेन्द्रः प्राविशत्पुरन् मेट्रोपोलिटन् इत्याख्यम् आङ्ग्लविद्यानिकेतनं सममेव समर्थ स पठने खेलने तथा तयोर्द्वयो सदैवापि नरेन्द्र प्रथमोऽभवत् कदाचन् श्रृण्मध्ये ज्यायेत्कलहो यदा आगच्छेयुरीन्द्रस्य समीपं निर्णयायते दयामया स सर्वेषां प्रीतिपात्रम् अभूदपि आत्मत्यागमनोभाव तस्य तैरभिनन्दित आङ्ग्लाध्ययनं तस्य प्रथमं सम्मतं नहि पुनः स परिवृत्तः सन् तद्भाषा इतिहास आङ्ग्ले स संस्कृते च तस्मै नारोचत कदाचिन् संन्यासी भवितुं वाञ्छा तस्याशिष्यै सविष्यपि तज्जीवनं कदा शक्यं स अहं भवेयं संन्यासी हस्तरेखाविदेकदा एवं कथितवान् चेति स्वमित्राण्यवदत् स च बाल्यादेव नरेन्द्रस्य मानसे वर्तते स्म न अन्धविश्वासलेशोऽपि तथा भीतिर्मनागपि तेनोक्तम् उत्तरे काले कौमारान्निर्भयोऽस्म्यहं नो चेद्विना किमर्थं मम कोशे कथं किल सर्वत्र भ्रमितुं लोके प्रयत्नं कृतवानहं तस्य धैर्यमुदाहर्तुम् अनेके सन्ति सम्भवा अद्भुतावहमासीत्तु तदीयस्मृतिवैभवं शीघ्रमेव पठेद्ग्रन्थं पठितं यत् स्मरेदपि नरेन्द्रखेलनं कर्तुं त्यक्तुं चाप्येकतानताम् स्वकीयमित्रभवनं गच्छति स्म कदाचन प्राङ्गणे गेहस्य स्थिते चम्पकपादपे आरोहणं स कृतवान् एकदा क्रीडनेच्छयाम् इष्टं न तस्य मित्रस्य पितामहस्येदं खलु तदीयेच्छानुसारेण नरेन्द्रस्यावरूढवान् ब्रह्म दैत्य इति कुक्रूरभूतस्तस्मिन् रुमे स्रवन्वसत् आहोणभ्यो नु तस्मात् स वृद्ध एवमुपादिशत् वयोधिके भूयो नरेन् आहृणुवान् तरुम् तरुं मित्रैरुक्तं पिशाचस्त्वां गृह्णीयादिति यद्यपि अन्यै यत्किञ्चिदाख्यातं विश्वासं तस्य मा कुरु स्वयं भवद्भिर्ज्ञातव्या कस्यचिच्चापि सत्यता इत्येवम् उक्तवान् हासेन हसितं नरेन् एवमेव भवन्नूनं भाविकालेऽपि तन्मतिः न केवलं तु सङ्गीते चित्रस्यालेखने चपि नरेन्द्रबालमनसि बभूवाभिरुचिर्भृषम् कथाकथनकृत्येन सङ्गीतालापनेन च हास्यानुकरणेनापि मित्राली अप्रिय प्रीलयन्नरेन् श्रेतां परिहासं तु नाकरोष कदाचित् तेसाम चित्ते सुजातान् वेदना तेन हेतुना तदीयजीवनास्तित्वं सत्यवादेशधिष्ठितं थयाभूतदर्थं तत्कुटुम्बपरितस्थितिः वर्ध्यते स्म यदा सम्यग् मन्दं मन्दं स बालकः तदीय वर्धत रात्रिकाले सदातिब्र समाधो निरतो भवत् नरेन्द्रो लब्धवान् किञ्चिन् अद्भुतावहं दर्शनम् नाटकाभिनयेकायिकाभ्यासे पाचके तथा कथाकथन् कार्ये च नरेन्द्रो बहु तत्परः प्रकृतिश्चाङ्कृतिस्तस्य मनोज्ञो तुष्टदायिके मधुरस्वरगानेन सर्वानाकृष्टवान् सहज यदा मन्दं युवावस्थां नरेन्द्र प्राप्तवान् तदा सममेव स्वभावेऽपि वीक्षितं परिवर्तनं बुद्धिसम्बद्धविषये स्पृहाचस्य प्रवर्धत आरेभे पठितुं ग्रन्थान् गौरवेण समन्वितम् इतिहासे च साहित्ये तात्पर्यं तेन दर्शितम् तथैव वा पठिता वार्तापत्रिकाश्चाप्यपेक्षया नरेणासीत् यदा पञ्चदशवर्षीयबालकः अतुल्याध्यात्मिकोन्मादं स कश्चिदनुभूतवान् कुटुम्बसहितं गच्छन्नासीत् रायपुरं स च अदृष्टपूर्वं प्रकृते सौन्दर्यं व्यक्षतं यदा मधुकोशं पृथु किञ्चे तदा तत्र ददर्शः विस्मयेन तथा दिव्यप्रभावेण तदन्तरं सहसा पूरितं जातं बोधशून्यो भवते स्म दीर्घकालं च तस्यां स्थित्यां हि बोधे लब्धे पुनश्चापि तस्यास्यं हर्षभासुरं दिनेषु तेषु तस्यासीन् तस्यासि इतरानुभवोषपि अधिकृत्य स्थलं मर्त्यं वस्तुं च विषयं तथा केनापि हेतुना भवनं प्रति केनापि हेतुना मृत्रस्य भवनं प्रति अभासत्यदा जागरिता स्मृतिर्जागरिताऽभवत् तस्मिन्नेव गृहे पूर्वं तमेव विषयं प्रति भाषितं तेन मित्रेण सहेते मनुते स्मस। स पुनर्जननसिद्धान्त तदा तच्चित्त आगतः क्षणा निष्कासिता चापि तच्चिन्ता तस्य मानसा प्रागेव जननात् तस्य परिकल्पितवान् स च एतत् सकलमित्येवं परकाले स उक्तवान् वर्षद्वयं नरेन्पित्रा सः रायपुरेऽवसत् तस्मिन् कालावधौ तत्र पिता कर्मरतोऽभवत् पितृभ्यो नैकविषयान् तदा विदितवान् स अभ्यस्तानि च गानानि पितुः सहाय्य हेतुना न केवलम् इदं बुद्धिसम्बद्धपरिशीलनं दिनेषु तेषु संरब् संलब्धो नरेन्द्रेण पितुस्तथा नानाविद्वजनास्तात् समीपं नित्यमागताः शृणोति स्म नरेन्द्रेषां पण्डितोचितभाषणम् तस्मिन् भागं च गृह्णीयान्नरेणपि कदाचन सामर्थ्यं तस्य दृष्ट्वा ते समाकृष्टाश्च निर्भरम् एकदा श्रीयां त्वाम् अधिकृत्य वयं नरेन्द्रमुक्तवान् कोऽपि पण्डितो विस्मयेन च यदा रायपुराद्भूय कलकत्तामागतो नरेन् विकासो लक्षितस्तस्मिन् दैहिकश्चापि बौद्धिकः असाधारणमेवासीत्तस्य ग्रहणग्रहणपाटवं जानीयाद्विषयं सर्वं पठनेन स अंशतः विद्यालये तस्य जातम् असान्निध्यं दिशा द्विवार्षिकम् प्रवेष्टुं तत्र भूयोऽपि नरेन्द्रः शक्तवान् परम् यतः स सर्वेषां शिक्षकाणां प्रियङ्करः अजानन्ते नरेन्द्रस्य वै चक्षण्यं तु निस्थूलं तत्रत्यान्तपरीक्षां स उत्तरेण प्रथमस्तरे तादृशो विजयपूर्वं तत्र, तत्र केनापि नार्जितः स षोडसं वयस्को भूत् तथा तेजोगुणान्वितः प्रविष्टयोनूयस्तु विलोकितः विना विलम्बं पश्चात्सप्राप्नुमुन्नतशिक्षणं प्राविसद्प्रे सिन्दंसि ते विख्यातं पठनालयम्